श्रीमद्भागवत् महापुराणं दशं स्कन्धम् अथाष्टाशीतितमोऽध्यायः शिवजिका सङ्कटमोचन् राजोवाच देवासुर्मनुष्येषु ये भजन्त्य शिवं शिवं प्रायस्ते धनिनो भोजान तु लक्ष्म्यापतिं हरिं एतद्वेदितुमिच्छाम सन्दोहेऽत्र महानहीनम् विरुद्धशीलयो ब्रह्मोर्विरुद्धा भजतां गतिः शीशु उवाच शिवशक्तियुतसस्वत्रिलङ्गो गुणसंवृतः वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधां ततो विकारा अभुवन् षोडसामीषु कञ्चन उपधावन् विभूतीनां सर्वासामश्नुते गतिम् हरिः निर्गुणसाक्षात्पुरुषः प्रकृते परः स सर्वदृगोपदिष्टा तं भजन् निर्गुणो भवेत् निवित्ते स्वमेधे सुराजायुष्मत्पितामहः श्रीमन् भगवतो धर्मान् अपृच्छन् अपृच्छदे च स आह भगवान् तस्मै प्रीतशुश्रूषवे प्रभो निनाम नृणाम्निशेषार्थाय योवतीर्णो यतो कुले श्रीभगवानुवाच यस्याहमनुगृह्णामि हरिश्चेतद्धनं शनैः ततो धनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् स यदा वितथोद्योगो निर्विन्नशाधनेहया मत्परैः कृतमैत्र्यस्य करिष्येमदनुग्रहम् तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम् अतो मां सुन्दराराध्यं हित्वा भजते जनः ततस्त आशुतोषेभ्यो लब्धराज्यशियोद्धताः मत्ता प्रमत्तावरदान् विस्मरन्त्यवजानते शेषो उवाच तापप्रसादयोरीषा ब्रह्मविष्णुशिवादयः सद्यशापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः अत्र चोदाहरन्तीमनितिहासं पुरातनम् भिकासुराय गिरिशोवरं दद्वापशङ्कटं विकोणामासुरपुत्रो शकुने पथि नारदं दृष्ट्वा देवे सूत्रे सुदुर्मतिः स आहदेवं गिरिसमुपाधावासु सिध्यति योऽल्पाभ्यां गुणदोषाभ्याम् आशु तुष्यति कुप्यते दशास्य वाणीयोस्तुष्ट सुवतो वन्दिनोरिव ऐश्वर्यं वतुलं दत्वा तदापसु सङ्कटम् इत्यादिष्टतमसुर उपाधावत् स्वगातृतः केदार आत्मक्रव्येण जुह्वानोऽग्निमुखं हरम् देवोपलब्धिम् अप्राप्य निर्वेदासप्तमे हले श्रोविश्चतस्वधितेन ततीर्थक्लिन्नमुर्सजं तदा महाकारुणिकसधुर्यटे यथा वयं चाग्निबोधितो नलात् नृगेयदोर्भ्यां भुजयोऽर्न्यवारयत् तत्पर्शनाद्भूय उपस्कृता कृतिः तमाह चाङ्गालमलं विष्णुष्वमे यथाभिकामं वृतिम् वितरामि ते वरं प्रिये यतो ये नृणां प्रपद्यताम् अहो त्वयात्मा भृतमर्जते वृथा देवं सबव्रे पापीयान्वरं भूता भयावहम् यस्य करं सृष्टिधास्ये संवृतामिति तच्छ्रुत्वा भगवान् रुद्रो धर्मनाय भारत ॐमिति प्रहसंस्तस्मै ददेहेरमृतं यथा इत्युक्त सों श्रो नूनं गौरिहरणलालस परीक्षार्थम् शम्भो मूर्धेर्ण किलासुरः सहस्तं मारे भेसो स्वकृतास्ति वा